मुद्गलपुराणं खण्डं नयन् योगचरितम् 23 ट्वेन्टि त्रि ज्येष्ठमासपारायणमाहात्म्यवर्णनं श्रीगणेशाय नमः सूत उवाच ब्राह्मणसुमतिर्नाम कुष्ठयुक्तो बभूवः सम्भूतो गालवे वंशे पीडां लेभे सुदारुणां सर्वाङ्गे भक्षितकीढैः सदा दुर्गन्धसंयुतः पूयशोनिधकर्माद्यैर्व्याप्त सर्वत्र विप्रप ततसोऽपि स्वदेहस्य खादार्थम् उद्यदो भवद सस्मारगणपं चित्ते विघ्नहीनार्थमादराद एतस्मिन्नन्तरे तत्रा जगामद्विजसत्तमः धौम्यसर्वार्थवित् जादवेदा इवापरः तं दृष्ट्वा प्रणनामादौ रुरुदे दुःखसंयुधः सुमधिं तं प्रदृश्यैव धौम्यो सौख्यदम् सौख्यदं धौम्य उवाच मा चिन्तां कुरु मा देहकादं कुरु महामदे मौद्गलं शृणुभावेन रोगहीनो भविष्यसि सर्वसिद्धिकरं पूर्णं ब्रह्मीभूतत्वदायकं मौद्गलं श्रवणेनैव चलशीघ्रं मया सह यवमुक्त्वा जनैस्तस्य तं गृह्य मुनिसत्तमः जगामपुलकं धौम्यो नानामुनिजनैर्हृदं तत्र ज्येष्ठः समायादो माससर्वार्थसिद्धितः स्वल्पकालेन योगीश्यपुलहो हर्षितो भवद शुक्लप्रतिपदि पारायणं प्राज्ञः समारभद मौद्गलस्य पुराणस्य नानाजनसमन्वितः उपोषणसमयुक्तबभूवुस्ते महामुने श्रवणे तत्परः सर्वे पुलहश्च तथा भवद सुमाद्यर्दौम्यसंयोक्तस्तदाभूदो महामतिः गणेशं मनसि ध्यात्वा परं शुश्रावमौद्गलं चतुर्भिर्दिवसैसोऽपि समाप्तं तचकारः पञ्चम्यां गणभेरतः सुमधिक्कुष्टहीनः स बभुवे तत्क्षणान्मुदा तं दृष्ट्वा हर्षसं युक्ता विस्मितास्ते बभूविरे धौम्येनानम्यपुलकं स्वाश्रमंस समाययौ तत्र धौम्यं प्रपूज्यादौ जगाद सुमधिर्वचः सुमधिरुच अस्य देहस्य कर्ता च पिता मातामहामुने त्वमेव मेन सन्देह करोमि त्वदीप्सितं देहोऽयं मे मया विप्र तावधीनः कृतः सदा शाब्धि मां तदहं नित्यं करिष्यामि विशेषतः दौम्य उवाच गणेशं भजभावेन मौद्गलेन समन्वितं तेन मां कृतकृत्यं त्वं करिष्यसि न संशयः एवमुक्त्वा महायोगी दौम्यस्वाश्रमगो भवद सुमधिर्गणनाधं स महुद्गले नाभजत् सदा अन्दे ब्रह्ममयो जादो भुक्त्वा भोगान् यथेप्सितान् एवं ज्येष्ठाभिधेमस्ये पारायणफलं परं अधान्यशृणुधर्मज्ञ वृत्तान्तं तत्र सम्भवं कुलहो हर्ष संयुक्तश्चक्रे परायणं परं तत्र कश्चित्तु चण्डाल आययौ स यदृच्छया दूरस्थितः पश्यति स्म किमिदं श्लोकस्य पदमुत्तमम् एकं सम्पूर्णभावेन भक्तसंरक्षकस्य च ततः सविस्मितो भूत्वा जगामस्वेच्छयेजितः पापकर्मा पुनः पापं चकारविविधं मुने मृतं यमदूताश्च गृह्य सर्वे त्वरान्विताः जग्मुर्देवं प्रणम्यादौ ददुस्तं पापकारकम् तत्रोवाचमहाबुद्धिश्चित्रगुप्तोऽयमं वचः महापापी महाभागचाण्डालोऽयं विशेषतः न पुण्यस्य कदाले सश्चाण्डाले न कृतप्रभो मौद्गलस्य पदं न आधश्रुतमेकमनेन च एतत्सर्वं मया कथितं तस्य चेष्टितं कुरु यद्धर्मसंयुक्तं दण्डरूपं महामदे चित्रगुप्तवच श्रुत्वा धर्मो ध्यात्वा गजाननं विचारमकरो चित्ते किं करोमि सुखप्रदम् एतस्मिन्नन्तरे तत्र सत्या वाक्तमुवाचः प्रदृश्य नरकानेव वा चण्डालाय महामदे सन्तद्यस्वर्गभूमिषु स्थापयस्व यथा सुखम् तथा चकारसंहर्षाद्धर्मराजप्रतापवान् स्वस्थाने भोगसंयुक्तं कृत्वा दंस्थाप्य सूर्यजः संस्थितस्तत्र चित्रं वै बभूवे परमाद्भुतं गाणे शास्तं प्रगृह्यैव ययुस्वानन्दकम्पुरं धर्मादयस्ततः सर्वे विस्मिताः संबभुविरे एवमेकपदस्यैव मौद्गलश्रोगकस्य यद् श्रवणेन फलं प्रोक्तमधः किं वर्णयाम्यहम् एवं ज्येष्ठाभिधेमासि श्रुत्वा पारायणं नराः इह भुक्त्वा किलान् भोगानन्दे स्वानन्दमाययुः तत्र वक्तुं मया विप्रशक्यते न कदाचन वर्षायुतैस्ततस्तुभ्यं कथीतं लेशतः परम् तत्सदिति श्रीमदान्ध्ये पुराणोपनिषद्दि श्रीमन्म उद्गले महापुराणे नवमे खण्डे योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे ज्येष्ठमासपारायणमाहात्म्यवर्णनं नाम अत्र ॐ